निराबाधास्त्वयिहते मयाराक्षसपाम्सना राक्षसपांसना वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः हिडिम्ब उवाच गर्जितेन वृथा किं ते कथितेन च कथेता मचि कृथ बलिनमसेम सपराक्रमं ज्ञा से मयात्म बलाधिका हिंसिष्ये स्वपन्त्वे यथा सुखं एष त्वामेव दुर्बुद्धे निहन्यद्या प्रियं वदं पीत्वा तवासृग्गात्रेभ्यः ततः पश्चादिमानपि इमां विप्रियकारिणी वैशम्पायन उवाच एवमुक्त्वा ततो बाहुं प्रगृह्यपुरुषादकः अभ्यद्रवत संक्रुद्धो भीमसेनमरिन्दमम् तस्या तस्याभिद्रवतस्तूर्णम् भीमो भीमपराक्रमः वेगेन प्रहितं बाहुं निजग्राहः सन्निवा निगृह्यतम् बलाद् भीमो विस्फुरन्तं च कर्षः तस्माद्देशाद्धनुं श्यष्टौ सिंहक्षुद्रमृगं यथा ततः पाण्डवेन बलार्दितः भीमसेनं समालिङ्ग्य व्यनदद्भैरवं पुनर्भीमो बलादेनं विचकर्षमहाबलः मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति अन्योन्यं तौ समासाद्या विचकर्षतुरोजसा हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम् बभञ्जतुस्तदा वृक्षां लताश्चाकर्षतुस्तदा मत्ता विवचसंरब्धौ वारणौ षष्टिहायनौ